ऋत्विग्भिः सहितो धीमानेव मेजे स भूमिपः ततस्तु ऋत्विजश्चास्य धूमव्याकुलोचनाः कालेन महता खिन्नास्तत्यजुस्तेन राधिपम् ततः प्रचोदयामास ऋत्विजस्तान् महीपतिः चक्षुर्विकलताम् प्राप्ता न प्रपेदुश्च ते क्रतुम् ततस्तेषामनुमते तद्विप्रैस्तु न ऋत्विग्भिरपरैः सह तस्यैवम् वर्तमानस्य कदाचित् कालपर्यये सत्रमाहर्तुकामस्य संवत्सरशतम् किल ऋत्विजो नाभ्यपद्यन्त समाहर्तुम् महात्मनः स च राजाकरोद्यत्नम् महान्तम् प्रणिपातेन सान्त्वेन दानेन च महायशाः ऋत्जो नु भूयो भोयस्त्व भूयस्वतंद्रि ते चा तम्रा न